ओं औसनसाक्षिणे नम ओं प्रकाशकाय नम ओंकर्मघ्नाय नम ओं केवलाय नम ओं कालाय नम ओं कामहिता कल्याणा नम ओं कर्मसाक्षिणे नम ओं कलमशवर्जिताय नम ॐ कठोरचित्तदूराय नमः ॐ कल्मषाप्पहाय नमः ॐ कालातीताय नमः ॐ कालकालाय नमः ॐ कूटस्थाय नमः ॐ करुणाकराय नमः ॐ कलिदोषविहीनाय नमः ॐ कल्पातीताय नमः ॐ कल्पनारहिताय नमः ॐ कल्पसाक्षिणय नमः कल्पकवत्स्थिताय नमः ॐ कार्यकारणनिर्मुक्ताय नमः ॐ करुणानिधये नमः ॐकार्यकारणरूपाय नमः ॐ करुणातीताय नमः ॐ करुणात्मने नमः ॐ कारणसाक्षिणे नमः ॐ कार्याश्वमेधाय नमः ॐकार्यकारणसाक्षिणे नमः ॐ कूटस्थसाक्षिणे नमः ॐ कृत्स्नाय नमः ॐ कार्योत्पत्तिनाशसाक्षिणे नमः ॐ कामविवर्जिताय नमः ॐ कामसाक्षिणे नमः ॐ क्रोधहीनाय नमः ॐ क्रोधसाक्षिणे नमः ॐ कृतार्थाय नमः ॐकार्यानन्दविहेनाय नमः ॐ कार्यानुत्तुदाय नमः कोपहीनाय नमः ॐ कर्मत्रयविवर्जिताय नमः ॐ कूर्मरोमोपमजगत्साक्षिणे नमः ॐ कर्मविवर्जिताय नमः ॐ कैवल्याय नमः ओ कालवत्लाय नम ओं कर्माध्यक्षा नम ओं खंडाखंड विहेनाय नम ओं खातसाक्षिणे नम ओं ख सदृशा नम ओं ख सूक्षमाय नम ओं खगोल्लास विलासाक्षिणे नम ओं खुसुम सदृशजगत्साक्षिणे नम ॐ गुरवे नमः ॐ गम्याय नमः ॐ गणनिधय नमः ॐ गमागमविवर्जिताय नमः ॐ गर्भहीनाय नमः ॐ गर्भसाक्षिणे नमः ॐ गुणानन्तविवर्जिताय नमः ॐ गुरुरूपाय नमः ॐ गुणातीताय नमः ॐ गुणत्रयसाक्षिणे नमः ॐ गन्तव्यदेशहीनाय नमः ॐ गन्तव्यदेशविवर्जिताय नमः ॐ ग्रामगोचराय नमः ॐ गुह्यागुह्याय नमः ॐ गुरुशिष्यविहीनात्मने नमः ॐ गुह्यानन्दस्वरूपिणे नमः ॐ गुरुप्रसादलभ्याय नमः ॐ गन्धसाक्षिणे नमः ॐ गम्भीरैकस्वरूपाय नमः ॐ गुहेशाय नमः ॐ गणाधिपाय नमः ॐ गगनसमलोकसाक्षिणे नमः ॐ घ्राणविहीनाय नमः ॐ घ्राणसाक्षिणे नमः ॐ गणमोह तिमिरसूर्याय नमः ॐ गणविक्रमचण्डवाताय नमः ॐ गणाहङ्कारदूराय नमः चित्प्रकाशाय नमः ॐ चैतान्यबाधरहिताय नमः ॐ चिन्मात्राय नमः ॐ चित्तविवर्जिताय नमः ॐ चितये नमः ॐ चिदात्मने नमः ॐ चैतन्यरूपिणे नमः ॐ चेष्टाहीनाय नमः ॐ चित्स्वरूपाय नमः ॐ चेतस्साक्षिणे नमः ॐ चिन्मयाय नमः ॐ चन्मोहनीयाय नमः ॐ चतुर्थाय नमः ॐ चतुर्थातीताय नमः ॐ चक्षुस्रष्ट्रे नमः ॐ चक्षुषे नमः ॐ चदानन्दाय नमः ॐ चिद्घनाय नमः ॐ चिद्विद्याय नमः ॐ चित्पराय नमः ॐ चदानन्दलहर्यये नमः